ते सुगादवे इन्द्राय सोममृत्विजः सुनोता च धावत सोदर्योवत शृणवर्धवङ्गमे आयम् विशन्तेन्द्रवापयोनवृक्षमन्धासः विलक्ष्यन्विमृधादिः रक्षस्विनेः सुनोता सोम पावने सोममिन्द्राय वज्रणे युवाचे तेषा नः सपोरुष्ठुतः पातन्न इन्द्रापोषणादेश्पान्तो मरुताः अपान्नपाः सिन्धवः सप्तपात न पातो न विष्णो लुतद्योः पातान्नोऽध्यावाः पृथिवे अभीष्ट ये पातुग्रा वा सोमो न पादो नो देवे शुभगासरस्वदेवात्तग्निः शिवाये अस्य पायवाः पादान्नो देवाश्विना शुभस्वदे उषासानक्षोत न उरुष्यताम् अपान्नपादभिः कृते गयश्चिद्देवत्वस्तवर्धय सर्वदादये वृष्ठा मे देव्यम् वनः पर्जन्यो ब्रह्म नस्पतेः पुत्रैर्भरदेवाहादुनो दुष्टरम् कायमाणं सहाह अंशो भगोवरो नो मित्रोर्यमादेज्वान् दो मरुताः अवरस्य द्वेषोगमेदभिः कृतो धिये समश्विना प्रावादन्नमुदक्षणमुलध्वन्न प्रायुच्छन् द्योश्विदर्यामयदुच्छुनाया उदेनमुत्तरन्नयाग्ने घृतेनाहुत समेलम्बच्च साधप्रजया जा च बहुङ्गृधे इन्द्रयमम् प्रातरङ्ग्रथि सजाता नाम सद्वशी प्रायः स्पोषेण संसृजीवादवेदसेनय यस्य कृणो हविर्गृहे तमज्ञे वर्धया त्वम् तस्मै सोमाधिप्रवदयन् च ब्रह्म नस्पतेः योऽस्मान् ब्रह्मणस्पते अभिमन्यते सर्वम् तम् ब्रन्थयासि मे यजमानाय शुवते योनः सोम सुशंसिनो दुःशंसादिदेशेष व्रजेणास्य मुखे सम्वेष्टो अपायते योनः सोमाभिदासदिश नार्यश्च निष्ठ्याः अपदस्य बलम् चिरमहे भजोर्वधर्मनः येन सोमादेजः पथा मालापालम् चद्रुहाः तेनानो वसागाहि ते येन सोमसाहन्यासूराम् ते ते ग्रन्धयासिनः तेनानोऽधे वोचत येन देवासूराणामोजाम् सुव्रणेध्वम् तेना शर्म यच्छत यथा वृक्षम् लिबोजासमन्तम् वरिषस्वजे एवापलेश्वजश्रमायथा माम् कामिन्यसा यथामन्नापगाहसाः यथा सुपर्णप्रपदम् वक्षो निहन्ति भूम्याः एवानिहन्मिते मना यथा माम् कामिन्यसो यथामन्नापगाहसाः यषे मेद्या वा पृथिवे सद्यः पर्येति सूर्याः एवापर्येमि ते सूर्या। मनोयधामाङ्कामिन्यसोऽयथामन्नापगासः वाञ्छमे तन्वा आम् पादौ वाञ्छाक्षौ वाञ्छसख्यौ अक्ष्यो वृषण्यन्त्याः केषा माम् ते कामेन शुष्यन्तु मम त्वा दोषनिःसृषम् कृणो मे हृदयश्रिषम् यच्छामप्रतापसोपमचित्तमुपायासे यासाम् नाभे रालेहरणम् हृदि संवनम् गावो घृतस्य मातलोमोम् संवानयन्तु पृथिव्ये श्रोत्रायवनस्पदेभ्योयेधेपतये स्वाहा प्राणायान्तरिक्षायवयाभ्या वायवेधे पदये स्वाहा विवेचक्षोषय नक्षत्रेभ्यः सूर्यायाधेपतये स्वाहा शमेवश्वत्था तद्द्वै पुत्रस्य वेदानन्तः श्रीष्वाभारामसे पुंसि वैरेतो भवति न स्त्रियामनो चिच्यते तद्द्वै पुत्रस्य वेदानन्तप्रजापतिरब्रवीर् प्रजापतिरनो मतिः श्रीबाल्यचीकृ स्थैषोऽयमन्यद्दलधर्पमाम् समुदधतिह परिद्यामेव सूर्यो हेनाञ्जनीमागमन् रात्रे जगादिवान्यध्वंसार्थेनादेवालये विषम् यद्ब्रह्मभिर्यषेभर्यद्देवे वेदितम् पुरा यद्भूतम् भव्यामासन्वर्तेना देवालये विषम् मध्वा पृञ्चे नद्या पर्वता गिरयो मधु मधुपरश्लीशीपाशमाश्रे अस्तु संहृदे नमो देववधेभ्यो नमो राजवधेभ्यः अथो ये विश्यानाम् रथास्तेभ्यो मृत्यो नमास्तु ते नमस्ते अधिपाकाय परापाकाय ते नमः सुमत्ये मृत्योदय नमो दुर्मत्येत इदम् नमस्ते यातुधानेभ्यो नमस्ते भेषजेभ्यः नमस्ते मृत्योमूलेभ्यो ब्राह्मणेभ्य इदम् नमाः अस्ति संवादः संसमास्थेतम् हृदयामयम् बलासम् सर्वम् नाशयाङ्गेष्ठायश्च पर्वसो निर्बलासंबलाशिनक्षिणो मे मुष्कलम् यथा क्षिणद्म्यस्य बन्धनम् मूलमुर्भावा एव निर्बलाशेतप्रपादा शृङ्गस्ये उत्तमो अस्योषाधेनाम् तव वृक्षावोपष्टयः उपश्च सोऽस्माकैव अस्माभिदासत् सबन्धोश्चासबन्धोश्च यो अस्माभिदासत् तेषाम् सा वृक्षायामि वाहम्भोयासमुत्तामः यथा सोमवोषधेनामुत्कमोऽहविषाम् कृतः लाशा वृक्षाणामृवाहम्भोयासमुत्तमः आदयोनामयोलसस्तमुग्रापयो आ ते करम्भवद्मसे विहल्लो नाम ते पितामदावती नाम ते माता स हिनर्तमाश्रेयस्तमात्मानमागायः कौति लिके मे वायमैलबहैलीत् बभ्रश्च बभ्रुचर्णश्चापे निलाल अलसालासि कोर्वा शिलाञ्जालास्युत्तला नीलाकलसाला यथेयम् वेचवे महे भूतानाम् गर्भामादधे एव ते ध्रियताम् गर्भानुसोत्तमम् सवेदवे यथेयम् <खे> वेथिवे महेदाधारे मान् वनस्पतेन एवात्रियताम् गर्भानुसोतम् सवेदवे यथेयम् <खे वेजिवे महेदाधार पर्वताङ्गिरीन येवात्रियताम् गर्भानुशोतम् सवेदवे यथेयम् <खे> वेशिवे महेदाधार विष्ठेतम् देवातेयताम् गर्भ अनुसोतुम् सगीतवे येर्ष्यायाध्यायिम् प्रथमाम् प्रथमस्या उता परा अग्निम् हृदय्या आम् शोकम् दम् ते निर्वापयामसे यथा भोमिर्मृतमानामृता मृतमानस्तदा यथोत्तमम् मृषा मन एमृतम् मनः हृदय श्रुतम् मा नस्कम्बादयश्लुकम् ततस्तयेष्याम् स्वामिनोष्माणम् दुतेरिव पुनन्तो मा देवजनाः पुनन्तु मनाबोधिया पुनन्तु विश्वा भूतानि पवामानः अथोनिष्ठदादये गुहाभ्याम् देवतविदः पवित्रेण सवेन च अस्मान् कोनेः गच्छसे अग्ने देवास्य हृदयति सुष्मिन बुदेव मत्तो विनपन्नपाहायते अन्यमस्मदिच्छेदौ रतस्तपूर्वधाय नमोऽस्तु लग्मने नमो रुद्राय अस्तु धक्मने नमो राज्ञेव रुणाय कृषे मते नमो दिवे नमः पृथिव्ये नमवोषधेभ्यः अययाभिशोच यस्नव विश्वा रूपाणि हरेता कृणोसि तस्मै ते ऋणाय बभ्रवे नमः शृणोमिवन्याय हिमायास्ति स्वपृथिवेसाम् भूमेरुत्तमासामधि त्वचो अहम् भेषजम् समो जग्रभम् श्रेष्ठमसु भेषानाम् वसिष्ठम् विरोधानाम् सोमो भगायि वयामेषु देवेषु वरुणो यथा रेवनाधस्य उतस्थ केश ब्रह्माणे रथोऽह केशावर्धानीः केशा कृष्णम् नियानम् हरा यस्तु वर्णा अहोऽवसानादिवमुत्पातन्ते त आवावृत्तान् सरनादिर्भृतेन पृथिवीम् व्योदुः वयस्वदे त्वलधामवोषाधे शिवाय रुक्मवक्षसः भोज्यम् च तत्र सुमतिम् च पिन्वतयत्रा नरोमरजस्य च धामथो उदप्लुतो मरुतस्था वृष्टिर्या विश्वाः निबतस्तृणाति रेजादिब्लहा कन्येव दुन्नेरुम् कुन्दानापत्येव जाया ससृषेस्तदपसोऽवानक्तम् च ससृषीः परेऽन्यक्रतुरहमपो देवेरुपह्ये पो तावः कर्मण्याः मुञ्चन्ति तः प्रणीदये सद्यः कृन्ते दे देवस्य सुविदः समे कर्म कृन्तुमानुषाः शृण्वो भवन् स्वपवोषाधे शिवाः किमवतप्रसवन्ति सिन्धौ समः सङ्गामः आपोऽह मह्यम् तद्देवेर्दरन्त्योतभेषजम् यन्मे अक्षोरादिद्योतपादाश्च यत् आपस्तत्सर्वम् निष्कारद्भिलजाम् शुभे शक्तमाह सिन्धोपत्नेः सिन्धोराज्ञे सर्वाया नद्या आस्थन नक्तनस्तश्च भेषदम् तेनावोभुनदामहे पञ्चदयाः पञ्चाशश्च संयन्तिमन्याभे इतस्ताः सर्वानश्यन्तु वाका पचितामिव सप्तजयाः सप्तदश्च संयन्तिग्रैव्याभि इतस्ताः सर्वानश्यन्तु वाका पचितामिव दया न वदश्च सय्यन्तिः स्कन्ध्याभि इतस्ताः सर्वा नश्यन्तु वाका पतितामिव अवामापाप्मान् शशीसम्भ्रणयासिनः आमा भद्रस्य लोके पाप्पन्थेश्चिरिः कृतम् यो नपाप्पन्नजहासितमुद्वाजहिमो वयम् अथा मनो व्यावर्तनेऽन्यम् आप्मानो मध्यता देवा कबोदायिषितो यदिच्छन् दोतो निर्वृत्त्या जगाम स्मार्चामगणवामनिष्के तिंषन्ना अस्त्वद्विपदे सञ्जतष्पदे शिवः कबोदयिषितो नो अश्वनाकादेवाश्य गुणो गृहन्ना अन विप्रजताम् अगर्नः पदे हेजः पक्षिणेनो वृणक्तो हेजः पक्षिणे न भात्यस्मानाष्टे पदम् गृह्णुदयाग्निधाने शिव गोभ्य मृतपुरुषेभ्यो नो सुमानो देवा विहरिम् चेत् कपोदाः यचा कपोतम् ललतप्रणोदमिषम्मदम् नः परिकाम् नयामः सर्वोभयम् दादुरिता पदानि हेत्वा नवोर्जम् प्रधापदश्चिमर्षत परी ेवेष्वर्श्वभक्क इमादधर्षदे यप्रसमः मासदाद बहुभ्यः पन्थामनुपस्तशानः योषे यश्च दुष्पदस्तस्मै यमाय नमोऽस्तु नृत्यवे अमोन्मे दुष्पादत्रिणेण्ये तु यदुलोकोपदादिमोघमेतत् यद्वा कपोधः पदमग्नौ कृणोते यौते धूतौ गर्वत इदमेतौ प्रहृतौ प्रहेतौ वा गृहन्नाः कपोदौ लोकाभ्यामपादम् गदस्तु अवैरहत्या एतमापद्यात्सु वेददा या इदमास्यात् परामेव परा पदपराधे मनोऽसम्वतम् यथायमस्य त्वागे रसम् प्रतिजाकाशानाभोगम् प्रतिजाकाशान् देवायमम् मधो ना संयोतम् यवम् सरस्वत्यामधेमनावचर्कुषो इन्द्र आसेच्छेरपतिश्च प्रादोक्तिनाशा आसन्मरदः सुदानावः यश्चैवतोमकेशो विवेकेशो येन विहस्यम् पुरोषम् कृणोषि आदात्मसन्न्यावनानवृक्षिप्तम् शामि शतमशाविरोह बृहत्पलाशे सुभागे वर्षावद्धरतावरे मातेव पुत्रेभ्यो मृडा केशेभ्यश्च मे आयङ्गो कृष्णे लक्नमे दशान्मातरम् पुरः पितरम् स्वाहा अन्तश्च रतिरोचना अस्य प्राणादपानतः गच्छन्महिष स्वाः त्रिंशद्धामाविराजदिमाग्तङ्गो आशिष्य प्रतिमसोरहर्युधी वेजो स्वेद्या दुधामक्षयातेन प्रदे ग्रहाणामुपादेतपासे रुद्रोहोऽवाचारेत्पिशाचा प्रश्नेर्वोऽपि शृणाद यातु भानाः वीरद्वो विश्वतो वीर्यायमेन समाजेयमत् अभायम्यत्रावरुणा विहास्तो मार्चिशास्त्राणानुगतम् प्रतीताः ज्ञाता ब्रह्मा प्रादिष्ठाम् वेदन्तज्ञानामुपायन्तु मृत्युम् याश्चेतमारजोयुजस्तुरजनावनम् yes. स्वाहा इन्द्रस्य अर्जुनम् रहत नाथ शादृशतधृशानोघवाः पुरा यथा विशिष्टव इन्दस्य नाथ शेशवाः सलाताम् रैमुरुम् भिषङ्गृशम् इन्द्रः पदस्तुमिष्टामोचनेष्व प्राज्ञवाच मेलयवृषाभायक्षितीनाम् शरः परशारतिद्विषाः यो रक्षाम् स निजोर्वत्यज्ञस्तिज्ञेन शोतिषा सरः यः पदस्यात्मरावतस्तिरोधन्वातिरोचते श नः परशाददिद्विषाः यो विश्वाभिविपश्याति भुवानासम् च पश्याति स न प्रशाददिद्विषाः यो अस्य पालेन जस शुक्रो अग्निरजायज स न प्रशाददिद्विषाः वैश्वानरो न भूतया प्रयादुपरावताः अग्निर्नः <Sess> सुष्ठुतेरुपा वैश्वानरो नागामदिनै यज्ञम् सजोरुपा अग्निरुप्ष्वह्मासो वैश्वानरोऽङ्गेरसां स्तोमा मुक्थम् च जागृपत् ऐषुद्युम्नम् स्वार्यमत् वृतावानम् वैश्वानरमृतस्य ज्योतिषस्पतिम् अलश्रम् धर्म स विश्वात्प्रदेजाग्लपहृतोशी यज्ञस्य वय वृत्तिरन् अग्निः परे सुधाम सुकामोऽ भूतस्य भव्यस्य सम्राटे गोविदायते उपप्रागात् सहसाक्षो युक्ता शपथो रथम् सप्तरमन्विच्छन् मम मृगादिवाभिमतो गृहम् फलेणो वृन्थितपथमग्निरेवादहन् सप्तारमत्र नोजहिरिव वृक्ष मे वाशिनेः तश्च पादशपदश पादोयश्च दश्शपात् सुरेश्चा विवा रक्षा मन्दम् प्रत्यस्यामि मृत्यवे सिंहे व्याघ्र उदयामृदा गौत्विषीरग्नौ ब्राह्मणे सूर्येया इन्द्रय्या देवी सुभगा जनायितो वच्च सा संविदाना यास्ति यद्धेऽपि या नियाहिरण्ऽपि शेरप्सु वा इन्द्रय्या देवी सुभगा जानसा नयितो वच्च सा संविधाना रथे अक्षये शभस्य वा चेवात् शब्देवरोढस्य शुष्मे इन्द्रय्या देवी सुभगा जानसा नैतो वच्च सा संविदाना राजन्ये तुन्दुभावाय तायामश्वस्य वाचे पुरोषस्य मायौ इन्द्रय्या देवी सुभगा जानसा नयितो वच्च सा संविदाना यशो हजर्वर्धतामिन्द्राज्योतम् सहस्रामेर्यम् हरस्राणमनो जीर्घाय दक्षा च हविष्मम् तम्मावर्भय ज्येष्ठदालये हक्षाल इन्द्रये यशस यशोभरयशस्विनम् नमसाविधेम स नो रास्वराष्ट्रमिन्द्राजोतस्य जय राजो यशसस्याम यशा इन्द्र यशाग्निरयशा सोमोऽयत दशा विश्वस्य भौतस्याहमस्मे शस्ता अभायम् यावापृथिवीहास्तु नोभायम् सोमस्य विता न कृणोतु अभायन्नास्थोर्वा आन्तरिक्षम् सप्तर्षीणाम् चाहविशाभायन्नास्तु अस्मै ग्रामाय प्रतिशश्च तवोर्जम् स्वभूतम् स्वस्ति च अशक्तिभायन्नतृणा धन्यत्रणाज्ञामभियात् मन्यो अनमित्रमित्रुत्तरात् इन्द्रानमित्रन्नः पश्चादानमित्रम् पुरस्कृति मनासे च दासे धया गोहोदयमुदलिप्ताय मध्ये श्रुताय चक्षासे विधेमहाविशा वयम् अपानायो व्यानाय प्राणाय भोरेधायसे सरस्वत्यावरो विषये वयम् मानोहायो दैव्यायेतनोपायेतस्तनूजाः अमर्त्यावत्या अभिनरसजद्धमायद्धत्त प्रतारम् जीवसे नः अवज्यामेव धन्वा नो मन्यम् सखाया विवसचा वन्यम् दा नोमि ते अतश्च अस्मानो मन्यमुपास्यामसु यो गुलोः अभितिष्ठामि ते मन्यम् वा श्याप्रपादेन च यथावशो न, न वा देशो ममा चित्तमुपायासि अयम् दर्भाभिमन्यु प्रस्वाय चाराणाय च मन्योर्गुणमन्युकस्यायम् अन्युषमानमुच्यते अयम् यो भोरे मूलः समुद्रमावतिष्ठाति बर्भप्रथिव्याबुद्धेतो मन्विषमानमुच्यते विदेहरव्याम् सरणिम् विदे मुख्याम् नयामसि यथावशो नवादेशोपमादित्वमुपायासे अस्थाज्जौरस्थात् पृथिव्यस्थाद्विश्वामिदम् जगात् अशुरवृक्षावोर्ध्व स्वप्ना स्तिष्ठा द्रोगो अयम् तव स्वदय्याभयषजानेत सहस्रम् सङ्गतानि च षेष्ठवाश्रावभयषजम् वसष्ठम् लोगनाशानाम् रुद्रस्य मोत्रामस्य वर्दस्य नाभेः विषाणकानामवादितॄणाम् मूला उच्छेदापादे कृतनाशानि पलोके हिमनस्तानि शंससि परे हृणत्वा कामये वृक्षाम् मनाः न सञ्चारगृहेषु कोशो मे मनाः अवशसा निश्चसा यत्पराशतो वारिमजाग्रहतो यत्स्वन्ताः अग्निर्विश्वान्यपस्कृतान्यदुष्ठान् काले अस्मद्दातुरिन्द्रब्रह्मणस्पतेऽपि मृषाचरामसि ेवोऽसि न मृतो देवानामृतगर्भोऽसि स्वप्न वरुणानीते माता यमप्यता विद्मदेयः स्वप्नचनित्रम् देवयामीनाम् पुत्रोऽसि यमस्य कला नः अन्ताकोषि न्त्वा स्वप्न तथा संविद्मसनः स्वप्नदुष्व्यात्पाहे यथा कला सन्नयन्ते देवा दुष्वप्नम् सर्वम् विषहरे सन्नायामसे अग्निप्रादः सबलेवा विश्वे देवामरुत इन्द्रा अस्मानस्मिन् वितीये स्वानेन जग्युः आयस्वन्द प्रियमेषाम् वदन्तयम् देवानाम् सुमादौ स्याम इदम् तृतेयम् सबलम् कवीना मृतेन ये चमसमैरायन्दसोऽधन्ध्वना स्वारा न शाना स्पष्टिन्नो अभिवस्य नयन्तो ्येनादि गायत्रच्छन् दानस्तारभे स्वस्ति मासं वा हास्य यज्ञस्योदज स्वाहा रघुराशिजगच्छन् दानत्वारभे स्वस्ति मासं वा हास्य यज्ञस्योदजस्वाः कुषाशितृष्ठच्छन् दानत्वारभे हिते अग्नेतन्व क्रोरमानम् शमत्याः हविर्वा भस्तिते जलम् शृञ्जलायु गौरीव मेष एव वै सञ्चवितोसे यदुत्तभद्रावुपालश्च खादातः श्रीष्णाशिरोत्ससाप्सो अर्जयन् मंशोऽन्वा भक्तिर्हरे देभिरासभिः स्वर्णा वाचामक्रतो वध्यव्या हरे कृष्णा शिरानर्तिषु नियन्नियन्त्युपारस्य निष्कृजिम् पुरोः हतम् तर्दम् सा मङ्कमाखुमश्रीणा सिन्तम् शिरो अपि पृष्टेश्रेणीतम् यमाण्येन दानवेरक्यतम् मुखमहाभायम् कृणुतम् भान्याय तर्दहैपतङ्गहैजभ्यः उपग्र ब्रह्मेवासं स्थितम् हविरणा सन्त इमान्यवानहिम् सन्तो अपोदीत पर्गापते वृथाः पते दृष्टा सम्भाषेणोदमे यान्याव्यध्वरा एके जस्थव्यध्वरास्तान् सर्वान् जम्भयामसि वायोः पोधपवित्रे न आपो अस्मान्मादः सोदयन्तु घृतेन नो घृतपः पुनन्तु विश्वम् हि प्रम् प्रवहन्ति देवेरुदिदाभ्यस्य गिलापूतये यत्किञ्चेदम् मारुणदैव्यचनेभद्रोऽहम् मानुष्याश्चरन्ति अदित्या चेत्तव धर्मा उत्सो यो दिवये ऋभ्रोलक्षांसि निजोऽर्वज आदित्यप्रदा विश्वदृष्टा दृष्टः निगावो गोश्च स तन्नि मृगासोऽपेक्षत न्योऽयो न ते नान्या आदृष्टा लक्षत आयोजतम् विपश्चिदम् श्रुताम् कण्वस्य आभारषम् विश्वभे मस्यादृष्टान्निशाम यत् योश्चाम इदम् समेत प्रचेदसौ शुक्रो बृहम् दक्षिणया विभर्तो अनः स्वथा सोमो वयेश्वानो नो अलब्धस्तनोपाहन्तस्तिष्ठापि दुरितानि विश्वा संवर्त्या सापया सासम् तनोऽभिरयन्नया सासं शिवेन वष्टा नो अत्र वरेयकृणात्तनो न मास्तु तन्भोयुद्विरष्टम् विदन्तद्विज उत्तालमिन्द्रम् स्वम्भाम्यश्चा ये अस्य क्षत्रम् श्रियम् महीम् वृष्टिदेववर्धयातृणम् अस्मै क्षत्रमग्नेशो मा वस्मै धारयतम् रयम् इमम् राष्ट्रस्याभिवर्गे ग्रणदयुजोत्तरम् स्वबन्धश्चासबन्धश्च यो अस्माभिदासादि सर्वम् तम् ब्रह्मयासि मे रजमानाय सम्भत् एव न्तराद्या वा पृथिवी सञ्चरन्ति तेषामुज्ज्ञानीयतमो वहादितस्मै मा देवाः परे धत्तेः सर्वे हे मन्दः शिशिरो वसन्तः शरद्वर्षा स्मिते आनागोशुभजता प्रजायाम् निवातयित्वा शरणे यदावत्सलाय परिवत्सलाय संवत्सराय कृणुता बृहन्नमाः तेषाम् वयम् सोमतो यज्ञियानामपि भद्रेऽसौ मनसे स्याम मानो देवानिर्वधेप्सतो कान्सहपोरुषान् संयतन्नविष्टन्नसंयमन्नमो देवजनेभ्यः नमास्तसिताय नमस्तिरस्तिराजये स्वजाय बभ्रवे नमो नमो देवगणेभ्यः सन्तेऽहन्वि रता गतः समोदेहन्वाहनो सन्ते लिह्या लिह्वाम् संवा स्मः आस्यम् जलविद्वारो भेषजमिदम् रुद्रस्य भेषजम् येनेषु मे च तेजनाम् शतशल्याम बभ्रवत् जालाशयणाभिषिञ्चत जालाशयणोपाशिञ्चत जालाशमुग्रम्भे सजन्ते नो मृणजीवसे सञ्च नौम नोमयश्च नोमादः किञ्च नामा मत् समानबोधिष्वन्नास्तु भेषजम् सर्वम् नास्तु भेषजम् यश सम्मेन्द्रामघवाङ्कृणोदयश सन्ध्यावापशिम्भे मे यशसम् मा देवस्याविता कृणोऽ प्रियो धा दुर्दक्षिणाया यः स्या यथेन्द्रोऽद्यावापृथिव्यार्यशः सा न्यथा भवोष देशे यशस्वती एवा विश्वेषु देवेषो भयम् सर्वेषु एष अनरद्भ्यस्तम् न समन्धेन भ्यस्त्वमारुन्धते अधे न केवयासे शर्मा यच्छतु दृष्टे शर्मा यच्छत्वधिस्सह देवेरारुन्धति करत्वयः सङ्गम् गोष्ठमा यक्ष्मा उदपोरूषान् ईश्वरो माम् सुभगामच्छाम् सा नो रुद्रस्यास्ताम् हेतिम् दोरन्नाय धृगोभ्याः अयमायाश्चर्यमा पुरस्ताद्विषेतस्तु मह अस्या इच्छन्नपैपदेमुदजायामजानाय अश्रामयमार्यमन्नन्यासाम् समानयते अङ्गोन्वार्यमन्नस्यान्याः समानमायाति धारपृथिवीम् धाताज्यामुतसौर्यम् भातास्याग्नेव चन्दुप्रतिकाम्यम् मह्यमापोमधो मतरायन्ताम् मह्यम् सोराभरज्योतिषकम् मह्यम् देवावृतविश्वेतपोजा अहम् विवेकपृथिवे हुद्यामः मृतोम्राजनयम् सप्तसाकम् अहम् सर्त्यमलदैयत्पदाम्यहम् देवेम् दे परिमाचन्दिशश्च अन्या जानपृथिवेद्यामहामृतोम्राजनयम् सप्तसिन्धोन् अहम् सर्त्यमलदैयद्पदा वियोग्ने सोमावजोषेसखाय वये सा नरस्तु भः पुनात बालप्राणेने शिरो न बाधे यावाम् शिवे वयसा वयस्वदेतावरे यज्ञेनः पुनीताम् वये स्वानरेम् सोमृतामारभ्यस्य आशा स्थन्वा वेदपृष्ठाः यया ग्रन्थस्य समादेश वयम् स्यामोदयिणा वेश्वालेम् व्रच्च सारभद्भम् श्रद्धा भवम् दक्षुचाय पावकाः ह्येडायासधा मादम् मदम् तजोक् पश्ये मसूर्यमुच्चरम् यत्ते देवे निर्वचनामबन्धतामग्रे वा स्वामिमाज्ञै यत् तत्ते विश्वाम्यायुषैवच्च सैफलायादो मदमन्नामध्यप्रसोदः नमास्तु ते निर्वते दिग्मदे यो यस्मयान् विजदा बन्धभाषा यमावश्यम् पुनरित्त्वा ददास्मे यमाय नमास्तु मृत्युभे अयस्मये द्रुवदेवेऽधिषैहभेदो मृत्युभिर्ये सहस्रम् यमे दत्तम् कृतृभित्संविधानमुत्तरमुन्नागरमुधेरोहयेमम् संसमेत्योऽवसे वृषन्नग्ने विश्वान्यस्पदे समेध्य सेचनावसोऽन्याभार सञ्जानेद्भंसम् वृच्छंसम् वामनाम् श्रुजानताम् देवा भार्यथा पूर्वे उपासते समानामन्दः समेति समाने समानम् समानेन वो हमिषाजोऽ समानम् च तोभिषं वे शद्धम् समाने वा गोधिः समानाहृदा यानि वः समानमस्तु वो मनो यथा वस्तु सहासा दे अन्य वा यता वा देशां मा नो युजा पराशरत्वम् देशाम् परान्तम् सुष्मा मर्दयाधानो हिमा कृधे निर्हस्तेभ्यो नैर्हस्तैयम् देवाश्ररुमस्य अथ पृश्चामि शत्रूणाम् आहोलनेनाहमिषाहम् इन्द्रश्च कालप्रशामम् मेदिना निर्हस्तशत्रोरभिदासम् नस्तु ये सेनाभिर्युधा मायन्त्यस्मान् समर्पयेन्द्रमः महासावधेनेषामकहारो विविद्धः आतन्माना आयच्छन्तोऽस्यम् गाये तथा वा निरहस्ताः शत्रुवः स्थलेन्द्रोऽपरा शरीर निर्हस्ताः शन्त्रशत्रवोन्धेषाम् लावयामहे अथेषामिन्द्रवेदाम् हरिवत्मानि सर्वद इन्द्रपूषा च सस्रतो मुह्यम् प्रद्यामोऽस्येनामित्राणाम् परस्कताम् <गला> मोढामित्राश्चरदा शीर्षाणा इवाहायः येषाम् वाग्निमोढानामिन्द्रोऽहन्तु वरं। वरम् अयशो नक्यवृषाचिरम् हरिणस्याभियम् कृधे पराङ्गलत्रयेष सर्वाचीगौरुपेशतो आयमाकम् सविताक्षुरेणोष्णेन वायौतकेनेहि आदित्या रुद्रावसाव वृन्दम् स चे स सोमस्य राज्ञो वरदप्रचेतसः अदे निःश्रो भवत्वा चिकित्सदु प्रजापतिर्दीर्घायुत्वाय चक्षास तेनवत्सविदाक्षुरेण सोमस्य राज्ञोऽवरोणस्य विद्वान् तेन ब्रह्माणावपदैतमस्य गोमानस्वानयमस्त्व प्रजावान् गिरावानगरा हिरन्ये घोषयत्य सा सुरायाम् शुच्यमाहानायाम् केनालयमधुतन्मये अश्विनासारघे न मामधोदाङ्गम् शुभस्मति यथा भर्गस्पतेम् वाचाभावता निज नो मयि वच्चोथो यशोऽथो यज्ञस्य यत्मयाः अन्वयि प्रजापानिर्जिविद्यामेव बृह्मतो यथा माम् स यथा सुरा यथाख्याधिदेवाने यथा पुंस्वावृशन्यतस्त्रियाम् मे हन्यदे मनः एवाच्ने मनो धे वत्से यथा हस्ति हस्तिन्याः पदेन पदमुद्युजे यथा पुंसो व्रेषण्यदस्त्रियाम्नि हन्यदे मनः एवाते अग्नेमनोधे वत्से निहन्यता यथा पृथिर्यथा पथिर्यथानभ्यम् व्रथावधि यथा पुंसो व्रेषण्यदस्त्रियाम्नि हन्यदे मनाः ग्ने मनो धेवत्सेरिहन्यता विलन्नमद्मे बहुधा विरोपम्भिरन्यमश्वामुदगामजामविम् विदेह किम् च प्रतिजग्रहाहमग्नष्टद्धो दासुहोतम् कृणोतु जन्मा हुतमहोदमा जगामा दत्तम् पितृभिरनो मतम् मनश्रीः यस्मान्मे मनौ देवराराजेत्यग्नष्टद्धो दासुहोतम् कृणोतु विरन्नमध्यमृतेन देवा दास्यन्न दास्यन् मुदसम् गृह्णामि वेश्वानदस्य महातो मा हिन्ना शिवम् मह्यम् मधो मगः स्वन्नम् देवसा अनुपोऽसि गण्वन्न सोलस्य मायया एवादेशे पस्यसायमर्कोऽङ्गेनाङ्गम् सम् सामकम् कृणोतु यथापसस्तायादम् वादेन स्थो लभम् कृतम् यावत्परस्वदपसस्तावत्ते वर्धताम्बसाः यावदङ्गेरम् पारस्वदम्भास्तेरङ्गार्जाभञ्जायत यावदश्वस्य वाजिनस्तावत्तै वर्धताम् वसाः येहयादवरो नः सोमा अग्निर्बहस्तरेहयात् अस्य श्रियामुपसंज्ञातसर्व उग्रस्य चयत्वः सम्मानसस्य जाता यो व्युष्माहृदायश्वरा गोचर्या गो मनसि प्रविष्टायामि हमिषा हृत रमजे स जाता रमदर्वासो यमादा जाता धर्म परस्तागमाधम् वः कृणोतु वोजो स्तोनो वोजोऽहमे तु मयेष जाता रमजर्वास्तु संवकृत्यन्ताम् क्रन्वानाम्बोयम् ब्रह्मा नश्वपानम् वो मनसोऽ सञ्ज्ञपानम् हृदः अथो भगच्छयच्छान्तम् तेन सञ्ज्ञापयामिव दित्यावशो भसम्भवो पर्मरुद्धे रुग्राहृणीयमानाः एवात्रेणामन्नीयमान इमाञ्जनान् सम्मानसकृधेय निरमुन्नोदपोकाशः सपत्नाय प्रतन्यते नैर्पार्थेण विषयञ्जायेन वरा यतो न पुनराय दिशश्वतेभ्यस्तमाभ्यः एतो तिस्रपरावदये तु पञ्च जना अपि एदो तिस्रौतेरोचनाय तो न पुनराय दिशश्वतेभ्यस्तमाभ्यो यावत्सूर्यासद्दि एनम् परिशीलम् दिशमादधा सम्प्रेद्धो अग्निर्दिह्वाभिहृदय तु हृदया न्दपनस्याहमायोष पदमाराभे अद्धातर्यस्य वश्यदि धूममुद्यन्ता मास्यतः यो अस्य समिधम् वेद क्षत्रियेण समाहता नाभिः पारे पदम् निदाति स मृत्यवे क्षत्रियो विद्वान्नाम गृह्णात्यायोष अस्थाद्योरस्थात् पृथिव्यस्थाद्विश्वामिदम् जगत् आस्थाने बलवातास्थस्थान्विश्वाधिष्ठितम् य उदानपरायणैव उदानन्यायानम् आवर्तानम् निवर्तानय्यो गोपापितम् होग जात वेदो निवर्तय सन्ते सन्तावृताः सहस्रम् तमुपावृतस्ताभिरुन्नः पुनराकृधे तेन भूतेन हविषायमाप्यायताम् पुनः जायाय्यामस्मा वाक्षुस्ताम् रसेनाभिवर्धताम् अभिवर्धताम् वयसाभिराष्ट्रेण वर्धताम् रैया सहस्रावत्य सैमौ स्थामनोपक्षितौ वष्टा गायामागनयत्पष्टास्यैत्वाम् वदति त्वष्टा सहस्रमायोऽि दीर्घमाय कृणोतु वा अयम् नानदस्पतिः संस्थानोऽभिलक्षतो गृहेशो नः मन्वानभस्पदवोर्जम् गृहेशोधारय आकृष्टमे त्वावसो देवसंस्फारसहस्राघोषस्ये तस्य नो रास्वरस्य नो दे हृतस्य च भक्तिमांसस्याम अन्तरिक्षे न पदति विश्वा भूता वचाकाशत् सुदा दिव्यस्य बोदये स्मारिष्ठदादये अप्सते जन्मपिदे सदस्थम् समुद्रे अन्तर्माहिमाद पृथिव्याम् शुनादिव्यस्य जन्म हस्तेनादेहमिषा विधेम इन्दादि हस्तावपरक्षाम्सि प्रजान्धनम् जगन्हानपादिहस्तोऽबोदयम् परेहस्तविधारययोनिङ्गर्भा यथा तवे मर्यादे पुत्रमाधेहितम् त्वमागमयागमे यम् परिहस्तमपि भरति च पुत्रकाम्या त्वष्टा तमस्याः बध्नाद्यथा पुत्रज्ञनादिति आगच्छदागामस्य नाम गृह्णाम्यायातः इन्द्रस्य वृत् लघ्नोऽहम् वैवासवस्य शतक्रातोः येन सूर्याम् धा वित्रे वश्मिनोहतुपथा न मामब्रमेद्भगो जायामावाहतादिति यस्येङ्कुशो वा सुधानो बृहन्निन्द्रहिरन्ययाः प्रेना जनीयते जायाम् मह्यम् देहिषु चेपते अपादित प्रपाततु सु पर्णो वासतेरीव सूर्य कृणोदो भेषचम् चन्द्रमा वोपोक्षतो येन कृष्णे कारोहि द्वे सर्वाः सामग्रभन्नामावेरग्नेरवेदन अशोति का रामायण्यापचित् प्रपादिष्यति वेहि स्वामाहो जञ्जुषाणो मनसा स्वाहा मनसा युजितम् जुहोमि यस्याश्च आसने घोरे जुहोम्येषाम् बद्धा नाम सर्जनायकम् ओमिरदित्वाभिप्रमण्डरे च नारजित्वाहम्बरे वेदसम्पताः भूते हविष्मादे भैषदे भागो यो अस्मासु उञ्चयमानमोलेन स स्वाहा ्वा आस्मन्निदेहात्ममा यस्मयान्विषाबन्धपाशान् यमा मह्यम् पुनरिद्वान् ददादि तस्मै यमाय नमोऽस्तु मृत्यवे अ यस्मै द्रुपदेवे तिश इह भेदो मृत्युभर्यसहस्रम् यमे न त्वम् विसृहत्संविधानमुत्तरमुन्नमधेनोह एमम् रयाता अयम् देवावनस्पतेः लक्ष्माया अस्मिन्नाविष्टस्तमो देवावेवलन् इन्द्रस्य वचनसा वयम् मित्रस्य अवरोणस्य च देवानाम सर्वेषाम् माता यक्ष्मम् देवारयामः यथा वृत्त इमापस्तम्भविश्वधा येः चे अग्निना यक्ष्मन्द्रैश्वालयवालये वृषेन्द्रस्य वृषा दिवो वृषा पृषव्या अयम् वृषा विश्वस्य चन्द्रमा नक्षत्राणामीशे त्वमेकपृषो सम्राटस्य सोराणाम् गगुन्मानुष्याणाम् देवानामर्धभागसि त्वमेकपृषो भाव आत्त्वा हार्षमन्तरभो ध्रुवश्चा बीजा चलत् विशस्त्वा सर्वा वाञ्छन्तुमात्वद्राष्ट्रमधिप्रगत इहैवेधिमापत्योष्ठाः पर्वादयुवा वीजा चलत् इन्द्रायेतमाधिधरध्रुवम् ध्रुवे न हर्मिषा तस्मै सोमोऽधिप्रवदयम् च ब्रह्मा नस्पतेः ध्रुवाद्यो ध्रुवा मृधिवे ध्रुवम् निश्वामितम् जगत् ध्रुवा स पर्वतायिवे ध्रुवो राजामिषामयम् ध्रुवम् ते राजावलोणो ध्रुवम् देवो बृहस्पतेः ध्रुवन्त इन्द्रश्चाज्ञश्च ध्वो चोदप्रेण शत्रोन् शत्रो योधरान् पादयः सर्वादृशः सम्मानसः सद्धेये धेहमेदिः कल्पदामिह यत्प्रेण शिरोदर्थम् सोमे नमुष्क्यम् ततः परि प्रजाते न हार्दिम् ते शोचयामसि शोचयामसि ते हार्दिम् पातम् धूम एव सद्भ्रा मामेवान्मे तु मेमनाः मह्यम् त्वामित्रावरोणौ मह्यम् देवे सरस्वती मह्यम् त्वामध्यम् भोम्याभावन्तौ समस्यता याञ्च रुद्रैषु मास्य रङ्गेभ्य हृदय च जा, इदन्तामद्यत्वद्भयम् विशोहामसे श्च शतम् धमनयोऽङ्गान्यनुष्ठीताः आसाम् दे सौवासाम् वयम् न विषाणिर्पयामसे नमस्य रुद्रास्य तै नम प्रदेहितायै नमा विसृज्यमानायै नमोऽनुपातितायै युमय्य वामश्चायोगै ्लादो वादन्यक्तमधिसौर्याः नीचेनामज्ञातो हेऽन्यक् भवतु धेनपाः आपयेद्वाो भेषपो अमेव जादानीः आपो विश्वस्य भेषजे स्थास्ते खण्डन्तु भेषजम् भव वाजं युज्यमान इन्द्रस्य या हि प्रस वे मनो जवाः युञ्जन् दत्वा मरुतो विश्ववेदसाधे त्वश्च मत्सु च मन्दधातु जवश्च अरुवह्निः दो गुहायश्चे वाद उदयो च लत्परे क्तः त्वेन वाजिम्बलवान्वजिञ्जाय समाने भारयिष्म कलोश्चेवाजम् वा आनयम् देवाममस्मभ्यम् भवतुभ्यम् अक्रोतो महो धरुणाय देवादिवीरेवज्योतिष्वमामिमेयान् यमा मृत्युराघमाराजर्वथा बभ्रः शर्वास्थाने नृगङ्गः देवज सेनात्तस्थिवाङ्सस्थे अस्माकम् वरे वृञ्जन्तवीरान् मनसाहो मेर्हरादाघेन शर्वायास्त्र उदराज्ञे भवाय नमस्येभ्यो नमायभ्यक्षुणोम्यन्यर्तमघबीजानयन्तो रायद्धन्नो घबीजाभ्योऽधाद्विश्वे देवावरुतो विश्ववेदसः अग्ने सोमावरोणः पूजलक्षा वातापर्जन्ययोस्मह तौ स्याम सम्भोमनांसे संव्रता समागोतेर्नमामसे ममीये विव्रता स्थनताङ्गः सन्नामयामसे अहङ्गब्धामि मन सामनांसि मम जित्त मनो जित्यभिजत मम वश सहृदयानि वत्णोमि मम यातमनो वर्त्मानयत रोषे मे ध्यावासिवीभूता देवी सरस्वती होतो महिन्द्रश्चाग्न्यश्चर्भ्या स्मेदम् सारस्वती अश्वत्थो देहे वसदामितो दिवे कामृतस्य चक्षाणम् देवाः कृमवन्मत हिरण्ययेनोराजरधिरण्यबन्धनादिवे तत्रामृतस्य पुष्पम् देवाः कृमवन्मत गर्भा अस्योषाधेनाम् गर्भो विश्वस्य भूतस्येवम् मे अगणदम् गृधि यावोजाधयः सोमाराज्ञेर्भक्ते सर्वे दक्षणाः बृहस्पतिः यच्चक्षोषामनासा यच्च वाचोपरिमजाग्रदा यत् स्वमन्दाः सोमस्ता विश्वतया नः पुनातु अभिभोर्यज्ञो अभिभोरज्ञिराभोः सोमा विभोरिन्द्राः अभ्याहम् विश्वापृता नारथासान्येवा विधर्वाग्निहोराहिलम् हमिः स्वरास्तो मित्रावरुणा विपस्थिता प्रजावत्क्षत्रम् मधो देह बिन्वदम् माधे साम् दूरम् नर्वेतिम्बराजे कृतम् जितेन प्रमो मुक्तमस्मत् इमम् बेरमनोहर्षध्वग्रमिन्द्रम् सखाजोनुसम्भध्वम् रामजितम् गोचितम् वज्रबाहञ्जयम् तमज्व प्रमृणन्तमोजसा इन्द्राजयाति न पराजयाताधिराजो राजासु राजयाति चप्रत्यये व्यो वन्द्यश्चपसजो नवस्यो भवेह त्वमिन्द्राधिराजश्रवस्य स्वम्भोरभिभो दर्जनानाम् वन्दैवेर्मिषा इमापि राजायुष्मक्षत्रमदरम् तेऽस्तु त्यादिशस्त्वमिन्द्राशिराज्योतो देत्यादिशो वृत्रहंस्रुः यत्रयन्ति स्वास्त्यास्तज्जितम् देह दक्षिणतो वृषभयेऽधिहव्याः अभिपेन्द्रवदे मद पुरात्पा होरणाग्भोग त्वयाम् युग्रम् यो अद्य सैन्यो वधोजिघाम् सन्नमुदीरदे इन्द्रस्य तत्र बाहो सा मन्दम् परे दद्मः परे दद्म इन्द्रस्य बाहो सा मन्दम् धातुस्राज तान्नः रेवादमितः सोमराजान् तिस्रः सरस्वतीरदुः स्वचित्ता विष दूषणम् विद्वो देवारूपदेभन्वन्विदकम् तेन देवप्रसूदेनेदम् दोषयता विषम् असोराणाम् दुहिता सुता देवाना विमस्पृथिव्याः सम्भो दासा च गर्था रसं विषम् आव्रेशायश्च स्वसेहि वध्वस्व प्रथयस्व च यथाण्डम् वर्धताम् शैवेन योषितमिद्याहि येन कृशम् वाजयन्ति येन हिन्दवम् चादूरम् तेनास्य ब्रह्मणपदे धनुवादानयापशाः वाहम् दानोमि ते वसोभिज्वामेव ब्रह्म स्वर्षा इव रोहितमलाव्लायथा बाहो अस्मिन् समये दृशम् वर्तते अभि देमनः समये सञ्जा वर्तता आहम् खेदामि तेमलाराजा स्वृष्ठ्यामेव रे स्मर्च्छिन्न यथा तृढम् मयि देवेश्च धाम्मनः आञ्जनस्य मधुघस्य पुष्ठस्य विरोधस्य च पुरोभगस्य हस्ताभ्यामनुरोधानमुद्धारे सन्दानम् बृहस्पतिः सन्दानम् स पिताकरोत् सन्तानम् मित्र यमासन्दानम् भव अस्मिना सम्पादमान्समावमानथो सञ्जायमान् इन्द्रस्तान्पर्याहार्दाम् नातारज्ञात्वम् अमेय युधा मायन्ते केतोन् कृत्वा देकाशः इन्द्रस्तान्पर्याहार्दाम् नातारज्ञात्वम् आदानेन सन्तानेन मित्राणाद्यावसे प्राणाय चाणासुनासोन् समर्चिरन् इमदानामकरम् तपसेन्द्रेणीतम् अमित्रायत्रा न सन्ति तालग्नाध्यात्वम् ऐनान्यदानीम् धार्ग्ये सौमोराणा च मेधिनो इन्द्रामत्वानादानामनिभ्यकृनोतु नः यथा मनो मनस्केतये परापदत्याशुमत् एवात्वङ्गा जयप्रभातमनसो न प्रबाह्यम् यथा पा नः सुशंसिदः परापदत्याशुमत् देवात्वङ्गाजयप्रभातपृथिव्या अनोऽवतम् यथा सूर्यश्च रश्मयः परापतम् चाशुमत् एवाद्यङ्का च प्रपातु समुद्रस्य नो वीक्षणम् आय नेत पराय ने दोर्वारोहतु पुष्पिणि वात प्रजायताम् हिमस्यत्वाधरायो नाचारे परिव्यामे शेतक्र दाहिनो भुवाग्निष्कर्णोद्भजम् विश्वजित् प्रायमाणा ये हे मा परे देहि प्रायमाण यद्विवाच्य सर्वन् मा रक्षजुष्पाद्यच्च विश्वजिते मा परे देहि विश्वजिद्विवाच्च सर्वन् मा रक्षजुष्पाद्यच्च विश्वादिकल्याण्यैः मापरे देहि कल्याणिद्विवाच्च सर्वम् नालक्षरदस्वाद्यच्च नश्वम् कल्याणि सर्वविदे मा बरे देहि सर्वाभिद्विवाच्च सर्वम् नालक्षरदस्पाद्यच्च नश्वम् त्वन्ना मेधे मेधा माम् राथ माम् ब्रह्मृम् ब्रह्म ज्योतामृषिष्टताम् प्रपेताम् ब्रह्मचारभिर्देवानामवासे हुवे याम् मेधामृभवो विदुर्याम् मेधामसूरा विदुः ऋषायो भद्राम् मेधाय्याम् विदुष्टाम् मय्या वेषयामसी यामृषा यो भूतगतो मेधाम् मेधाविदोः विदुः या मामध्य मेधयाग्न मेधाविनम् गण मेधाम् सायम् मेधाम् प्रागर्मेधाम् मध्यन्तेरम् परे मेधाम् सौर्यस्य रश्म सर्वजा सावेषयामहे टिप्पले क्षिप्त भेषज्यो नाद्ध भेषजे ताम् विपल्या पिप्पल्या आसमवदन्ताशीर्जनादधि यन् एवमश्न महेन्दसरि स्यापोरो सः असोरास्पान्याखलम् देवास्थोदपवन् पुनः वाजेत्रे तस्य भेषजीमथाक्षिप्तस्य भेषजी रत्नोहिकमेऽध्याध्वेषो सदाच्यो दानम् यच्छदत्से स्वान् च्वम् विप्राय स्वास्मभ्यम् चभौभागमायाजस्व येष्टभ्याम् जातो विदृता यमस्यामूलमर्हणात् परे बाह्येन अत्येन विश्वा दीर्घायुक्ताय शतशारदाय व्याघ्रेऽण्यादनष्टवीरो नक्षत्र ितरम् वर्धमानातरम् प्रवेत्रे इमम् मे अग्ने पोषोणम् बद्धस् यातो लालापीति अतोऽधिते कृणवद्भागेयम् यदानुतोषति अज्ञश्च निशामय जीते मथ उद्योगम् कृणो मे देवेन साधुन्मादृगमुन्मत्तम् दक्षणस्परि कृणो मे विद्वान् भेषदयुधानुम् मदितोषसि पुनस्त्वादुरत्वरसः पुनरिन्द्रः पुनर्भकाः पुनस्तादुर्विश्वे देवायुधानुम् स ग्राह्यात्पाशान्विजयदप्रजानन् बभ्यम् नैव अनोजानन्तु विश्वे मुन्मुन् च पाशाम् त्वमग्नयेषाम् त्रयस्त्रभिरुत्सेदायभिरासन् सग्राह्याः पाशान्विजयदप्रजानन्ते का पुत्रौ मातरम् च सर्वान् येभिःपाशे परे वित्तौ विभक्तोऽङ्गे अङ्गार्तेदमुत्सेदश्च विदे मुच्यन्ताम् विमुचा हृषन् भ्रोणज्ञपोषन्तुरितानि मृक्ष देवामृतैतस्ततये शमृजय ततो यदि त्वा ग्राहे राकाशे तान्ते देवा ब्रह्म नाराशयन्तो मये जेर्धोपान्द्र विशालोपाप्मन्नुदान् गच्छोत वा नदीनाम् फेनामृताम् विनश्यम्भो नोः सन्तुरितानि मृक्ष्व पादशानि हेदम् धृतस्यापामृष्टम् मनुष्ये रसानि तत्रा यदित्वा ग्राहीराधे पान्ते देवा ब्रह्माणा नाशयन्दो यदि देवादेव हेण देवाशस्य क्रमा वयम् आदित्यास्तस्मान्ना योऽयमृतस्य अर्थेन मुञ्चत कृतश्चर्तेनाहादित्यायजत्रा मुञ्चदेहनाः यज्ञै यद्यज्ञवाह तत् शिक्षम् दो नोप किम वेदस्वताः प्रणामा विश्वे वो देवाः शिक्षम् योऽयन्नस्तस्मान्मुञ्जरविश्वे देवास्सजोषसः यदि स्वभन्नेन येन स्योगालम् भूतम् मातस्माद्भव्यम् च दृपदादेव मुञ्जताम् नृपदादेवमो जानस्मिन्नस्नात्मामलादिव पूतम् पवित्रेणैवाद्यम् विश्वे शम्भन्वमैन सह यज्जामम् जग्म् निखनम् दोग्र्यतार्षेवणान्नमिदो न विद्यया वैवस्वते राज वितज्जो होम्यथा यज्ञयम् मधो मधःस्तुनान्नम् वैवस्वतग्रणमद्भाग च यम् मथो भागो मधो नासंसृजाति मातुर्यतेन यशेषन्नागण्यत्वाः पितापरार्थोदिहेण यदेम् मातव्य देवा पितुर्नः परिभ्रातः पुत्राच्चेताश एनागन् गावन् गो अस्मान् पितरः स्वन्तेषाम् सर्वेषाम् शिवो अस्तु मन्युः अपमित्यमप्रदेतै यदस्मेयमस्य येन बलिनाचरामि इदम् तदज्ञानो भावाभि त्वम् भाषान्विशुतम् येऽर्थ सर्वान् एव दन्तप्रदे तद्वयेन जीवा देवेभ्यामिह रामजेन अपमित्यधान्याय जगदाहमिदम् तदज्ञा नृणो भवामि अनणा अस्मिन्नृणा परस्मिन् तृतीये लोका नृणास्याम एः वयानाः पितरयाणाश्च लोकाः सर्वान् मथोः नृणा आक्षीयेम यद्धस्ताभ्यान्तेदाण्यक्षाणाम् दत्तमो वलिप्सहमानाः उग्रम् वश्येव ग्रजिदर्त्या मनो दत्ता मृणन्नाः उग्रम् वश्य राष्ट्रभर्गुर्वेदा नियदक्षवृत्तमनो दत्तम् न लोके अधिरज्जुरायत् यस्मा ऋणै्यस्य जायामुपैर्मेय्याच मानाभ्येमे देवाः देवायम् राजशर्मोत्तराम् मध्येवा पत्नी अप्सारसावधेदम् यदेव्यगमहम् कृणोम्यदास्यन्नग्न उदसम् गृणामि वैश्वानरो नाधिपावसश्च उदिन्ना यादश मृदस्य लोकम् वयेश्वानराय प्रतिवेदयामि यत् दृढम् सङ्गरो देवतासो स्व एतान् पाशान् विश्रुतम् वेद सर्वान् च भक्तेन सुहसम् भवेम वेश्वानर प्रापितामा पुनः तु यत्सङ्घर माभिधामान्याशान् मनासा याच मानो यत्तत्रै नामे यदन्तरिक्षम् पृथिवे मुद्याय्यन्मातरम् वितरम् वाजि हिंसिम अयम् तस्माद्गार्हो नृतस्य लोकम् भोमिर्माता देतन्न जनेत्रम् भ्राकान्तरिक्षमभिषस्या नः योर्नः पितापित्र्याच्छम्भावादिजाम मृत्वा भावत्सि लोकात् यत्रा सुभाषुकृतो मदन्विहाय लोकम् तन्वा आस्मायाः अश्रणाङ्गैरः क्रोता स्वर्गदत्रामस्य मम पितरो न पुत्रान् ध्याणापाशान्विष्वाध्यस्मद्यमुक्तमाधर्मभारुणायम् सृतन् स्वात्मदसा गच्छ मम सुकृतस्य लोकम् यत्तारोण्य बध्यसे यच्च यत स्वामिविद्भूम्याम् बध्यसे यच्च वाचा अयम् तस्माद्गार्हत्यो नो अग्निरुदि यादिवृतस्य लोकम् उदगाताम् भगवते विदुतो नाम तारके रेहामृतस्य यच्छताम् रेतो वर्धकमोचनम् विजेहेश्वरोकम् ग्रेण न्यायव प्रचोदो गर्भपथः सर्वा अनुक्षिया एतम् भागम् वरे ददामि विद्वान् विश्वकर्मन् प्रथमाचारतस्य अस्माभिर्धत्तम् जरतः परस्तारच्छिन्मधम् त्वमनुसन्तरेम तदम् तन् त्वमन्वेके तरन्ति येषाम् दत्तम् व्यक्रियमायानेन अलन्धे केतदादप्रयच्छन् दोदातम् चेक्षाम् स स्वर्ग एव अन्वाराभेदामनसम्राभेदाभेदम् लोकम् श्रजधा नास्त्वन्ते यद्वाम् पर्कम् परेष्टमग्नौ तस्य गुप्ताजे दम्पती संश्रजता यज्ञयन्तम् मनाथा ब्रहन्ता भन्वारो च योनिः उपहूताग्जलधः परस्ताः तृतीयेनागे सुधा मादम् वदेम शुद्धा पूता योषितो यज्ञया इमा ब्रह्मणाम् हस्तेः सुप्रपृथक् सादयामि यत्काम इदमाभिषिञ्जामे वोहमिन्द्रो मरुत्वाम् सदातु तन्मे एतम् च धस्तात्परेव ददामियम् च पथि मावः अन्वाघण्टायजामानस्वस्तु तम् स्म जानीत परामेव्योमन् जानीतस्मैनम् परामेव्यामण्डे वा सधश्चामिदलोकमत्र अन्वाघण्टा यजामान स्वस्येयश्च भूर्धम् स्म कृणुताभिरस्मे देवाः पितारः पितारो देवाः योऽस्मि सोऽस्मि सदा जामि सता जामि सया चे स दत्तान् मायोजम् नागे राजन्प्रदे तिष्ठत तैतत्प्रदे तिष्ठतु विद्धिपूर्तश्च सदेव सुमना भव विवानु माम् रहतोम् दरिक्षादपाम् स्तोऽभ्याम्यकृ समिन्द्रिये नया साहमज्ञे छन्दोभिज्ञे सुकृताम् कृतेन यदि वृक्षादभ्यपक्षत्फलम् दद्यन्तरिक्षात्सवो वायुरेव यथास्पृक्षत्तन्मो यच्च वासोजम्बराजेः अभ्यञ्जनम् सुरभिधा समृद्धिर्हिरण्यम्बत्यस्तदो गोत्रिममेव सर्वा पवित्राभिजाताभ्यस्मत्तन्माताः वनस्पदेभ्येभ्यम् गोभिभूयास्मत्सखा प्रसरा नुवीराः गोभिः सन्नद्ध्वादिविरलयत्वा स्थायत्वा विवत्पृथिव्याः पर्या च उद्भृतम् वनस्पदेभ्यः पर्याभृतम् सहा अपामोत्मानम् परिगोभिरावृतमिन्नस्य वज्रम् इन्द्रस्य उजामरुतामनेकम् मित्रस्य गर्भोऽपरोणस्य अनाभिः स इमान्ना हव्यदाुषाणो देव न सप्पदे हव्यागृभाय उपश्वासय पृथिवे मुद्याम्बोरुत्रा दे वन्वताम् निष्ठीतम् जगत् स्वतन् भयदजोरिन्द्रेण देवैर्दोराद्वीयो अपाधनत्रो न आक्रन्दयमलमोजोऽनाधाभिष्टा तदुरिदा बाधामानः अमासे ददुन्दुभेदुच्छुनाः मिल इन्द्रस्य मुष्टिरादि वीडयस्व रामो जयाभि एव जायन्तु के तु मत्तुम् तु सर्वा वदेतु समस्यापरणाः पतन्तु नानरास्माकमिन्द्र रथिनादयन्तु विद्रथस्य बलाधश्च रोहीतस्य वनस्पते विषल्बेगस्योषधे मोच्छे सप्षितम् च न यूते एबलासतिष्ठपश्युतौ वेदाहन्तस्य भयषडम् नेकत्रोरभिचक्षेणम् योऽ यायः कर्ण्याय अख्योर्विषल्बागः विवृहामा विशल्बेगम् विद्रथम् हृदयामयम् परामज्ञादक्ष्मधराञम् सुवामसे शकरथोमन्नक्षत्राणि यद्राजा नमकुर्वत भद्राहवद्मे प्रायच्छन्निदम् भ्राष्ट्रमसाते भद्राहन्ना मध्यन्तेन भद्राहम् सायमस्तु नः भद्राहन्नाह्नाम् प्रातरात्रे भद्राहमस्तु नः अहोरात्राभ्याम् नक्षत्रेभ्यः सौर्यायन्द्रमसाभ्याम् भद्राह वस्तोभ्यम् राजन् सगाधो मत्तम् गृधे यो नो भद्राहमागरः सायन्नमसोऽवा तस्मै ते नक्षत्र राजशगाधोमस आगमः भगेन माशान्तपेन साकमिन्द्रेण मेदिना कृणा मे भगिनम् मा भद्रान्तरादयः येन वृक्षाभ्यभावो भगे रवर्चा तेन मा भगिनम् गन्ववर्ग्रान्तरादयः यो अन्धो यः पोनः सरो भगो वृक्षेष्वाहीतः तेन मा भगिनम् गन्ववर्द्रान्तरादयः रथनिताम् राजलिते यीनामक्षरसाभयम् स्मारः देवा प्रहेणु तस्मरमसौ मा असौ मे स्मरतादिति प्रियो मे स्मरतादिति देवाप्रहेणु तस्मरमसौ मा मनो शोचतु जाममस्मरादसो नाम श्याहं गदा गदा देवाप्रहेणु तस्मरमसौ मा मनो शोचतु उन्मादयदमर तमुदन्ध्र रक्षमादय रात्र उन्मादयात्मसौ मा विशेष देवाप्रहेणुतस्परमसो मामनो शोचतो मनो मतेऽन्मितम् मन्यः सा गो रसमिदम् नमः देवाप्रहेणुतस्परमसो मामनो शोचतो यद्धा वासित्रयो जनम् जनंग वन्दयो जनमाश्वेरम् तरस्त्वम् पुनरायाज भद्राणाहन्ना सः पिता यम् देवा स्मरमभिम् जन्नप्स्वा आन्त श्वोशोदानम् सहाढ्या कन्दे यमिन्द्राणि स्मरमसिम् च ध आनन्दशोचोचानम् दहाध्या कन्दे दपामेवरोणस्य धर्मणा यमिन्द्राग्रे स्मरमसिम् च दामत्स्वा आनन्दशोचोचानम् सहाभ्या कन्दे दपामेवरोणस्य धर्मणा वरोणोऽञ्जला मत् स्वा आन् श्वो जानम् सहाध्या पन्दे रवामे वरोणस्य धर्म देवो मेखला मा बभन्धयः सन्ननाहयवो नो युयोज यस्य देवस्य प्रसिदाचरा मत्स पारमेच्छार्च सो मा विमुञ्जात् आहोतास्तुभो दर्शे नामस्यायोधम् पूर्वा व्रतस्य प्राश्वदेवे लक्ष्मेभावमेखले मृत्योरहम् ब्रह्मचारे यदस्मि धर्याचन् भोगात्पुरोषयमाय तमहम् ब्रह्म नातपासाश्रमे जानयेनम् मेघालयासि नामि श्रद्धाया दुहितातपोऽधि जातास्वसदृशेणाम् भोतकृताम् बभूव नोः मेखले मति माधेः मेधामधो नो धेहि तपा इन्द्रियम् च याङ्कापूर्वे भूतकृतर्शाय परिमेथिले सार्कम् वरेष्व च स्वमाम् दीर्घायुत्वा च मेखले अयम् अज्ञर्प यदा अधानोऽधनवृत्तादेभ्यो गूढ पृथिव्यामोत्स्रेपदे वज्रेणावाहदश्यो जिनागृहमन्विच्छ दि योजिना गृहमिद्याहि विनातो वज्रत्वम् सीमन्तामन्वञ्च मनोपादय रस्यामि बलम् गुर्व इत्थम् वज्रमादादे स्वर्गढा नमुष्य सातयन् रुत्रस्यैव यत्किरामि सम्बेवामि समुद्रये वसम्पिमहः प्राणानमुष्य सम्पायसम्बेवामो अमुम् वयम् यद्गिरामि सङ्गे रामि समुद्रयेवसङ्गिरः प्राणानमुष्य सङ्गे यसङ्गे रामो अमुम् वयम् देवी देव्यामधे जाता पृष्ठव्यामस्यौषधे तान्तामि तत्तिकेशेभ्यो ब्रह्माणायथ ना नामसि ब्रह्म प्रत्नाञ्जलया जाताञ्जातामर्षे सस्कृति कश्चैकेशो वपद्यते समोहो लोयश्च पृष्ठते विरन्ताम् विश्वभैरज्जाभिषिञ्जामि विरुधा काञ्जमदज्ञलखद्विहिद्रैकेशवर्धनीम् काम् एकः व्याभरदशी तस्य गृहेभ्यः अमेयो नामेया सन्ध्यामेणः नुमेयाः ना, केषा लडायैव वर्धन्ताम् शेर्ष्णस्ते रसिताः परि बृह्मूलमाग्रै यच्छमिमध्यैयामयोषधे केषा लडायैव वर्धन्ताम् शीर्ष्णस्ते रसिताः परि त्वम् मेरुधाम् चेच्छा समाभि श्रुतास्योषधे े अत्यवो रोणम् क्लेब मा पशिनम् गृधे लेबम् गिनमथ पुरेणम् गृधे अथास्येन्द्रोग्रावभ्याण्डौ त्वे ब्लेवन् त्वाकरम् मध्य मध्यम् द्वाकरमराजाभसम् द्वाकरम् पुरेरामस्य शेष एते दे नाद्यो देवग्रेते दे यो स्तिष्ठतिवृष्ट्यम् दे दे दे ते तेऽभिनद्भिम्ययामुश्याधिमुष्कयोः यथा ऋणङ्गशिपो ने स्त्रियोभिन्द्यश्वाना एवाभिनद्भि तेज कौमुष्याधिमुष्कयोः यस्विकारो रोहितसुभागङ्कर निम शरन्दव प्रदानास्त्रयस्त्रम् सन्निधानाः तया सहस्रमण्याहृदायम् घोषयामि च सुष्यसमये जय संबलने शुष्यत्कास्यम् अथो निषक्षमाङ्गामेनाथोष्कास्याचल सम्बलने समश्पलावभ्रगल्याः निसन्नोद अमोञ्चमाञ्च सन्नोदसमारम् हृदायम् कृधे यथादकमपापुषोपशुष्यत्यास्यम् एवानुष्यमाम् कामे नाथोऽसुष्कास्याविच्छिद्य सन्दधात्यहिम् पुनाः एवा कामस्य विच्छिन्नम् सन्धे हिमेर्यावती व्याघ्रामवालोढो दिगच्छनः पितरम् मातरम् च तौ दन्तौ ब्रह्मणस्वदेशोऽग्रेणुजातवेदः व्रीहि मत्तमसामाशमसातिलम् एष वाम् भागो निहीरत्केयायन्तौ माहिम् द्म् पितरम् मातरम् च उपाहूतौ सयजौ शोनौ दन्तोऽसु मङ्गलौ अन्यत्र वाङ्घोरम् द्वा आस्परे ददन्तौ माहिम् षष्ठम् पितरम् मातरम् च वायुरेण समगरत्कष्टाकोषाय भियता इन्द्र आभ्याधिप्रवदरुद्रो भूम्सतु रोहिते नश्वति नामि धनम् कर्णायो कृधि अकर्तामश्विना लक्ष्मदस्तु प्रजया बहु यथा चक्रवृते वा सुरागथा मनुष्याभुत एवासहस्रघोषाय गृहतम् लक्ष्माश्विना उत्सायश्च बहुर्भावश्वे नमः साय वृणेः विश्वापात्राणिमात्मा दिव्यास निर्वधेत् दे आशम्बन्तैयमम् देवै यत्र पाच्छा वदाम चेत् तदक्षाय स्वत्यौ एव समुद्रये वैध्यक्षेतः अक्षेतास्तौ वसतो क्षेदाः सन्तु